नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् एण्ड् नारद उवाच पुराणसूत्रमखिलम् श्रुतम् तव मुखाद्विभो मरीचये यथा प्रोक्तम् ब्रह्मणा परमेष्ठिना अधुनादुमहाभागतिथीनाम् वै कथानकम् क्रमदो मह्यमाख्याहि यथा स्याद्वदनिश्चयः यस्मिन्मास्ये तु या पुण्या तिथिर्येण उपास्थिता यद्विधानम् च पूजादेस्तत्सर्वम् वदसाम्प्रतम् सनातन उवाच शृणुनारदवक्ष्यामि तिधीनान्ते व्रतम् पृथक् धीशानुक्रमादेव सर्वसिद्धिविधायतम् चैत्रे मासि जगद्ब्रह्मा स स शुक्लपक्षे समग्रम् वै तदा सूर्योदये सति वत्सरादौ वसन्तादौ बलिराजे तथैव पूर्वविद्धैव कर्तव्याप्रदिपत् सर्वदा बुधैः तत्र कार्यामः शान्तिः सर्वकल्मषनाशिनि सर्वोत्पादः प्रशमनि कलिदुष्कृदसारिणि आयुप्रदा पुष्टिकरी धनसौभाग्यवर्धिनि मङ्गल्या पवित्राच पवित्रा च लोकद्वयमुखावहा तस् तस्यामादौधुसम्पूज्यो ब्रह्म वह्निवपुर्धरः पाद्यार्घ्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः होमैर्बल्युपहारैश्च तथा ब्राह्मणदर्पणैः तदक्रमेण देवेभ्यः पूजाकार्या पृथक् पृथक् कृतोङ्कारनमस्कारं कुशोदकतिलाक्षतैः सवस्त्रं स हिरण्यं च तदो दद्याद्दिजातये दक्षिणां वेदविदुष्ये व्रतसम्पूर्तिहेतवे एवं पूजाविशेषेण स्यात् सौरि संज्ञम् विप्र तस्मिन्नेव दिने दिने विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने तिलकम् नाम च प्रोक्तम् कृष्णेनाजादशत्रवे अध्येष्टे सिदे पक्षे पक्षत्यां दिवसोदये देवोद्यानभवं हृद्यं करवीरं समर्चयेद रक्ततन्दुरीधानं गन्धधूपविलेपनैः प्ररूढ सप्तधान्यैश्च नारगैर्बीजपूरकैः अभ्युक्ष्याक्षततो येन मन्द्रेणेद्धं क्षमापयेत् करवीरवृषावासनमस्ते भानुवल्लभ भा। देवानाम सततम् प्रिय कृष्णेनेधि वेदोक्तमन्त्रेणेढम् क्षमापयेद एवम्भक्त्या समभ्यर्च्य गत्वा विप्राय दक्षिणाम् प्रदक्षिणम् तदकुर्यात् पश्चात्स्वभवनम् व्रजेद नभ शुक्ले लक्ष्मी बुद्धिप्रदायकम् धर्मार्थकाममोक्षाणाम् निदानम् परमम् व्रतम् सोमवारम् समारभ्य सार्धमासत्रयम् द्विज कार्तिकासिदभूतायामुपोष्यम् व्रत तत्परः पूर्णायाम् शिवमभ्यर्ज्य सुवर्णवंशसंयुदम् पायनम् सुमहत्पुण्यम् देवताप्रीतिवर्धकम् दद्याद्विप्राय सङ्कल्प्य धनवृद्ध्यै मुनीश्वर भाद्रशुक्लप्रतिपदिव्रतं नाम्ना महत्तमं ब्रदं मौनाह्वयम् केजित् प्राकुरत्र शिवोच्यदे नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश देवाय षोडशान्यानि भुज्यन्ते षोडशात्मनां सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानविद तत्सर्वं धेनु सहितमाचार्याय प्रदापयेद् इदं कृत्वा व्रतं विप्र देवदेवस्य शूलिनः चतुर्दशाब्दं देहान्तं भुक्तभोगशिवं व्रजेद अश्विनेसिदपक्षत्यां कृत्वा शोकव्रतं नरः अशोको जायदे धनधान्यसमन्विधः अशोकपूजनं तत्र कार्यं नियमतत्परैः प्रदान्ते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः समर्प्य गुरवे भक्त्या स्युवलोके महीयते अस्यामेव प्रतिपदि नवरात्रं समारभेद पूर्वाह्ने पूजये देवीं कडस्तापनपूर्वकम् अङ्गुरारोपणं कृत्वा य वैर्गोधूममिश्रितैः ततः प्रतिदिनं कुर्यादेघभुकृतमयाचितम् यथाशक्रि उपवासं यथाशक्तिपूजापाठजपादिकं मार्कण्डेयः पुराणोक्तं चरिततृदयं द्विज पठनीयं नवदिनं भुक्रि मुक्रि अपि सदा पूजनं तत्र प्रशस्तं भोजनादिभिः इत्थं कृत्वा ब्रदं व्रतं विप्रसर्वसिद्ध्यालयो नरः जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः अधोर्जसितपक्षत्याम् नवरात्रोदिदम् चरेद विशेषदन्नकूडाख्यम् विष्णुप्रीतिविवर्धनम् सर्वपाकै सर्वदोहै सर्वै सर्वार्थसिद्धये कर्तव्यमन्यकूढं तु गोवर्धनसमर्चने सायं गोभिस्सह श्रीमद्गोवर्धनधरा धरं समर्च्य दक्षिणीकृत्य भुक्ति मुक्ति समाप्नुयात् अध धनव्रदमनुत्तमं धनव्रतमनुत्तमम् नक्रम् विष्णु अर्चनं हो महि सौवर्णीं हुदभुक्तनुम् रक्तवस्त्रयुगाच्छन्नाम् द्विजाय प्रतिपादयेद् एवम् ये कृत्वा समृद्धो जायते भुवि वह्निना दग्धपापस्तु विष्णुलोके महीयदे पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तिदः येवभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयाद दि दिवसे वह्निं साक्षान महेश्वरम् समभ्यर्च्यविधानेन समृद्धो जायते भुवि अध फाल्गुनः शुक्लादौ देवदेवं दिगम्बरं धूलिधूसरसर्वाङ्गं जलैरुक्षेत्समन्तदः कर्मणा लौकिकेनापि सन्तुष्टो हि महेश्वरः स्वसायुज्यं प्रदिशति भक्त्या सम्यक् समर्चितः वैशाखेदु सिदाध्यायां विष्णुं विश्वविहारिणम् समभ्यर्थ्यविधानेन विप्रान् सम्भोजयेद्वदि एवं शुचि सिदाध्यायां ब्रह्माणं जगदां गुरुं। विष्णुना सहितो ब्रह्म सर्वलोकेश्वरेश्वरः स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात् आसुद्वादशमासानां प्रतिपत्सुद्विजोत्तमव्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते भोजने तु हविष्यान्नम् सामान्यद उदाहृदम् इति श्रीबृहन्नदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमोऽध्यायः ओम्